अथ श्रीदुर्गासप्तपदी प्रथमोऽध्यायः ओ प्रथमतरित्रस्य ब्रह्मादिभिः महाकाली देवता महाकालीदेवता महाकालीदेवता गायत्री छन्दः गायत्री छन्दः नन्दाशक्तिः नन्दाशक्तिः रक्तदन्तिका बीजम् रक्तदन्तिका बीजम् अभिर्तत्वम् अभिर्तत्वम् ऋग्वेदस्वरूपम् ऋग्वेदस्वरूपम् श्रीमहाकाली प्रीत्यर्थे प्रथमचरित्रजपे विनियोगः श्रीमहाकाली प्रीत्यर्थे प्रथमचरित्रजपे विनियोगः जानम् जाणम् षट्कम् चक्रगले तु चापपरिधान् स्थूलम् भुसुन्दीम् शिरः षट्कम् चक्रगले तु चापपरिभान् स्थूलम् भुसुन्दीम् शिरः शङ्खम् कन्दसतीम् नरैत्रिनयनाम् सर्वाम् रभूषादृताम् शङ्खम् कन्दसतीम् नरैत्रिनयनाम् सर्वाम् रभूषा गताम् नीलाश्वुतिवास्यपाददशकाम् सेवे महाकालिका नीलाश्वस्यपाददशकाम् सेवे महाकालिका यामस्वोत्त्वपिते हरौ कमलजोहन्तुम् मधुम् कैतभम् यामस्वत्त्वपिते हरौ कमलजोहन्तुम् मधुम् कैतभम् ॐ नमस्कण्डिकायै ण्डिकायै ॐ मार्कण्डेय उवाच ॐ मार्कण्डेय उवाच सावन्निष्ठूर्यतनयो मनुसक्षते क्रमः सावन्निष्ठूर्यतनयो मनुसक्षते क्रमः निरामय तदुत्पत्तिम् विस्तराद्यदतो मम निशामयकुत्त्वम् नित्तराजतो मम महामायानुभावेन यथा मन्वन्तराधिपः महामायानुभावेन यथा मन्वन्तराधिपः शबभूव महाभागः तावन्निस्तनयो रवेः शबभूव महाभागः तावन्निस्तनयो रवेः स्वारोदिशेन्तरे पूर्वम् तैत्रम् सकमुद्भवः द्वारोदिकेऽन्तरे पूर्वम् कैकंश समुद्भवः सुरभो नाम राजाभूत्कमत्तेमण्डले सुरभो नाम राजाभूत्क्रमत्ते क्षिदिमण्डले कस्य बालयतस्तम्यक् प्रजाः पुत्राणि मौरथान् तस्य बालयतस्तम्यक् प्रजाः पुत्राणि मौरथान् बभोवशत्रवो भोपा कोलाविध्वंसिनस्तदा बभोवशत्रवो भोपा कोलाविध्वंसिनस्तदा तस्य तैर भवद्गुभ्रमतिप्रबलदन्दिनः तस्य तैर भवद्गुभ्रमतिप्रबलदन्दिनः योनैरपि सतैर्युद्धे कोलाविध्वंजिभिर्जितः योनैरपि सतैर्युद्धे कोलाविध्वंजिभिर्जितः ततस्वपुरमायातो निजदेशाधिको भवत ततस्वपुरमायातो निजदेशाधितो भवत आत्रान्तत्तमः भागस्तैस्तदा प्रबलादिभिः आत्रान्तत्तमः भागस्तैस्तदा प्रबलान्भिः अमात्यैर्बलिभिर्दुप्तैर्दुर्बलस्य दुरात्मभिः अमाद्यैर्फलिभिर्दुप्तैर्दुर्बलस्य दुरात्मभिः कोशो बलम् चा वसतम् तत्रापि स्वपुरे ततः कोशो बलम् चाभसतम् तत्रापि स्वपुरे ततः ततो मृगया व्याजेन हृतत्वाम्यक् प्रभूपतिः ततो मृगया व्याजेन हृतत्वाम्यक्रभूपतिः एकाकीहयवारुह्य जगानदहनम् वनम् एकाकीहयवारुप्य जगानदहनम् वनम् ततत्राक्रममद्रापिजवर्यस्य मे भगः तदत्राक्रममद्रापि द्विजवर्यस्य मे भगः कजान्तस्वापदाके अन्नम् मुनिषिष्योपशोभितम् कजान्तस्वापदाके अन्नम् मुनिषिष्योपशोभितम् तर्खो गञ्चच्चकालम् च मुनिनाथेन सत्कृतः सर्को गञ्चच्चकालम् इदस्येतस्य वितरम् तस्मिन् मुनिवराश्रमे इदस्येतस्य वितरम् तस्मिन् मुनिवराश्रमे शोचिन्तयत्रदा तत्र ममत्वा दृष्टते तनः शोचिन्तयत्रदा तत्र ममत्वा दृष्टते तनः मद्वोर्वैः पालितम् पूर्वम् मया हीनम् पुरम् हितते मद्वोर्वपालितम् पूर्वम् मया मध्रस्यै तैरसदृत्यैर्धर्मतः पाल्यतेन वा मध्रस्यै तैरसदृत्तैर्धर्मकः पाल्यतेन वा गजानेतप्रधानो मे दूनहस्ती वदामनः गजानेतप्रधानो मे मम वैरिवतम् जातः काम् भोगानुपलप्यते मम वैरिवतम् जातः काम् भोगानुपलप्स्यते येम मानुगता नित्यम् प्रसादधनभोजनैः येम मानुगता नित्यम् प्रसादधनभोजनैः अनुवृत्त्यम् ध्रुवम् तेऽस्य पुरुपञ्चन्यमहीवृता अनुवृत्त्यम् ध्रुवम् तेऽस्य पुरुपञ्चन्यमही वृताम् अतम् यव्ययशीलैस्तैः पुर्वद्धिर्थतम् व्ययम् असं यज्ञयशीलै सैः कुर्वद्भिः सततम् व्ययम् सञ्चितस्वोऽपि दुःखेन क्षयम् कोचोगमिष्यति सञ्चितस्वोऽपि दुःखेन गमिष्यति एतच्चान्यच्च सततम् चिन्तयामास पार्थिवः एतच्चान्यच्च सततम् चिन्तयामास पार्थिवः तप्रतिप्राक्रमाज्ञाते वैश्यमेकमिदर्शः तत्र विप्राश्रमाभ्याते वैश्यमेकम् ददर्शतः स पृष्टस्तेन कस्वम् भो हेतुश्चागमनेत्रकः सपृष्टस्तेन कस्त्वम् भो हेतुश्चागमनेत्रकः तशो गहिवकस्वा स्वम् दुर्मणा इव लक्ष्यते तशो गहिवकस्वा स्वम् दुर्मणा इव लक्ष्यते इत्याकर्म्यवदः सत्य भूपदे प्रणयोजितम् इत्याकन्यवचः सत्य भूपदे प्रणयोजितम् प्रत्युवाचहतम् वैश्यप्रक्षयावनतो नृपम् प्रत्युवाचहतम् वैश्यप्रक्षयावनतोपम् वैश्य उवाच वैश्य उवाच समाधिर्नाम वै स्योऽहमुत्पन्नो धनिनाम् कुले समाधिर्नाम वै स्योऽहमुत्पन्नो धनिनाम् कुले पुत्रदारैर्निरक्तस्य धनलोबादना भुभिः पुत्रदारैर्निरक्तस्य धनलोबादना भुभिः विहीनस्य धनैर्दारैस्पुत्रैरादाय मे धनम् विहीनस्य धनैर्दारैस्पुत्रैराधाय मे धनम् वनमभ्यागतो दुःखी निरक्तस्ता प्रबन्धुभिः वनमभ्यागतो दुःखी निरस्तसा प्रबन्धुभिः सोऽहम् नवेत्य पुत्राणाम् कुशलाकुटलाभिलाम् सोऽहम् नवेत्य पुत्राणाम् कुशलाकुतलाभिम् सरत्यम् स्वगणानाम् सदानाम् शाश्वतम् स्थितः सरत्यम् स्वगणानाम् सदानाम् शाश्वतम् स्थितः किं नु तेषाम् गृहे क्षेममत्क्षेमम् किम्मुखाम् प्रतम् किं नु तेषाम् गृहे क्षेममत्क्षेमम् कथम् एकं मुषद्वृत्ता दुर्वृत्ताः किं नु मे दृताः कथम् एकिन् मुषद्वृत्ता दुर्वृत्ताः किं नु मे दृताः राजोवाच राजो वाच यैर्निरस्तो भवान् लुब्भ्रैः पुत्रजारादिनिर्धनैः यैर्निरस्तो भवान् लुब्ध्यै पुत्रजारादिनिर्धनैः केतु किम् केतुकिम् भवदस्नेहमनुब्नाति मानम् वैत्य उवाच वैद्य उवाच एवमेतद्यथा प्राह भवानत्मर्गतम् वदः एवमेतजथा प्राह भवानत्मर्गतम् करोमि न बध्नाति मनः किम् करोमि न बध्नाति मनः यै सम् त्यजवितृस्नेहम् धनलुब्धैर्निनादुतः यै सम् त्यजवितृस्नेहम् धनलुब्धैर्निनादुतः पदित्वजनः सं च हासिते प्रेम मे मनः पदित्वजनः सं च हासिते प्रेम मनः किमे तन्नाभिजानामि जानन्नपि महामते किमे तन्नाभिजानामि जानन्नपि महामते यप्रेम प्रवणम् चित्तम् तिपुणे स्वदिवम्भुच यत्प्रेम प्रवणम् चित्तम् तिपुणेष्वदिवम्भुच तेषाम् कृते मे निश्वासो दौर्मनस्यम् सजायते जायते तेषाम् कृते मे निश्वासो दौर्मनस्यम् च जायते करोमि किम् यन्नमनस्थे स्वप्रीतिषु निःुरम् मार्कण्डेय उवाच मार्कण्डेय उवाच ततस्तौ सहितौ विक्रतम् मुनिम् समुपस्थितौ सतस्तौ सहितौ विक्रतम् मुनिम् समुपस्थितौ समाधिर्नामवै स्योतौ सजपाच्छिवसत्तमः समाधिर्नाम वै स्योतौ सजपा शिवसत्तमः श्रुत्वा तुतो यथा न्यायम् यथार्हम् तेन कृत्वा तुसौ यथा न्यायम् यथार्हम् तेन संविदम् उपविष्टौ कथा काश्चित्क्रतरुमैष्यब्यमौ उपविष्टौ कथा राजो बाध्यमौ राजोवाच राजोवाच भगवम् स्वामहम् प्रक्त्वमिच्छाम्येकम् वदस्वत भगवम् स्वामहम् प्रक्त्वमिच्छाम्येकम् वदस्वत दुःखायन् मे मनसस्वचित्ताय प्रकाम्भिनान् दुःखायन् मनसस्वचित्ताय प्रकाम्भिनान् मम त्वम् राज्याङ्गे स्वशिले स्वपि मम त्वम् यतराज्यस्य राज्याङ्गे स्वशिलेस्वपि जानतोऽपि यथाज्ञस्य इमे तन्मुनिषत्तम जानतोऽपि यथाज्ञस्य इमे तन्मुनिषत्तम अयम् कनि कृतः पुत्रै दानैर्भृत्यैस्तथोद्धितः अयम् कनि कृतः पुत्रै दानैर्भृत्यैस्तथोद्धितः स्वजनेन कथम् यजकस्येतु हार्दि तथाप्यति स्वजनेन कथम् यजकस्य तु हार्दि तथाप्यति एवमेतथाहंस द्वावप्यत्यन्तदुःखितौ एवमेतरथाहंस द्वावप्यत्यन्तदुःखितौ दृष्ठदोषेऽपि ममत विषये ममत्वा दुष्कमानसौ दृष्ठदोषेऽपि विषये ममत्वा दुष्कमानसौ सत्यमेतन्महाभागजन्मोः ज्ञानिनोरपि सत्यमेतन्महाभागजन्मोः ज्ञानिनोरपि ममास्य च भवत्येता विवेकान्धस्य मूढता ममास्य च भवत्येता विवेकान्धस्य मूढता ऋषिरुवात ऋषिरुवात ज्ञानमस्ति हमस्तस्य जन्तोर्विषयगोचरे ज्ञानमस्ति हमस्तस्य जन्तोर्विषयगोचरे विषयश्च महामागयाचितैवम् पृथक् पृथक् विषयश्च महामागयाचितैवम् पृथक् दिवान्धानः केचिद्भ्रात्राम्भास्तथापरे केचिद्यिवा तथा रात्रौ प्राणिनः तुल्यदृष्टयः केचिद्यिवा तथा रात्रौ प्राणिनः तुल्यदृष्टयः यानि नो मनुजा सत्यम् किन्तुतेन हि केवलम् यानि नो मनुजा सत्यम् किन्तुतेन हि केवलम् यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगाधयः यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ज्ञानम् सतन्मनुष्याणाम् जगतेताम् मृगपक्षिणाम् ज्ञानम् सतन्मनुष्याणाम् जगतेषाम् मृगपक्षिणाम् महष्याणाम् शयत्तेषाम् तुल्यमन्यत्ततोभयोः महष्याणाम् शयत्तेषाम् तुल्यमन्यत्ततोभयोः ज्ञाने सति पश्यन् पतंगाथावसंजुष ज्ञाने सति पश्यन् पतंगाथावंजुषादानोहा चेज्यनानपिभा माषा मनुषव्याघ्रता मानुषामनुजव्याघ्रताभिलाषास्तुकान् प्रति लोभात् प्रत्युपकाराय नन्वेतान् किम् न पश्यसि लोभात् प्रत्युपकाराय धन्वेतान् किम् न पश्यति कभापिनमतावस्थे मोहदक्षे निपातिताः कभापिनमतावस्थे मोहदक्षे निपातिताः महामायाप्रभावेन संरस्थ्यति कारिणा महामायाप्रभावेण ब्रह्मार्तिकारिणा कन्नात्रविस्मयः कार्यो योगनिज्वाजगत्पते कन्नात्रविस्मयः कार्यो योगनिज्वाजगत्पते महामाया हरे स्नैः तम् लोक्यते जगत् महामाया हरे स्नैः दया तम् लोक्यते जगत् याणि नामपि चेताम् कुदेवी भगवती हि सा याणि नामपि चेताम् कुदेवी भगवती हि सा बलादाकृत्यमोहाय महामाया प्रयच्छति बलादाकृत्यमोहाय महामाया प्रयत्पति तया विसृज्यते विश्वम् जगदे तच्चरातरम् तया विसृज्यते विश्वम् सन्ना बलदांग कई प्रसन्ना बलदांगति मुक्त साद्या साद्याप्क्नातनी मुक्तेर हेतु सर्वेरे संसारबन्धहेतुश्चैव सर्वेश्वरेश्वरी रादो वाच रादोवाच भगवन्ताहिसा देवी महामाने तियाम् भवान् भगवन्ता हिसा देवी महामाने तियाम्भवान् रवि जगतमुत्पन्ना सा कर्मास्याश्च किम् तिजा रवि जगतमुत्पन्ना सा कर्मास्याश्च किम् तिजा यत्कभावाचसा देवी यस्वरूपाय तुवा यत्कभावाच देवी यस्वरूपाय तुवा तत्सर्वं श्रोतुमिच्छामि त्वत्तोऽं फलिदाम्बर तत्सर्वं श्रोतुमिच्छामि त्वत्तोऽभ्यं फलिदाम्बर ऋषिरुवाच ऋषिर्वाच नित्यैव सा जगन्मूर्तिकया सर्वमिदम् ततम् नित्यैवता जगन्मूर्तिषया सर्वमिदम् ततम् तथा वितत्कमुत्पत्तिर्बहुधा श्रूयताम् हम तथावितत्समुत्पत्तिर्बहुधा श्रूयताम् हम देवानाम् कार्यतिभ्यर्थमाविर्भवति सा यदा देवानाम् कार्यतिभ्यर्थमाविर्भवति सा यदा उत्पन्नेति तदा लोके शालित्याप्यभिधीयते उत्पन्ने तदा लोके साधीये योग निद्रा विस्वगत् योग निद्रा यजगत्ववीते आीसे मभजतकं भगवान्भु आखीये मजजतकं भगवान्भु कदा द्वापसुरो घोरौ विख्यातौ मधुकैतभौ कदा द्वापसुरो घोरौ विख्यातौ मधुकैतभौ विष्णुकर्णमलो धूतौ ब्रह्माणमुद्यतौ विष्णुकर्णमलो धूतौ ब्रह्माणमुद्यतौ तनाधिकमले विष्णोस्थितो ब्रह्मा प्रजापतिः तनाधिकमले विष्णोस्थितो ब्रह्मा प्रजापतिः दृष्ट्वा तावसुरौतोऽग्रौ प्रसुप्तम् गजनार्दनम् दृष्ट्वा तापसुरौतोऽग्रौ प्रसुप्तम् गजनार्दनम् तुष्टावयोगनिद्राम् तामेकाग्रहृदय स्थितः सुष्टावयोगनिद्राम् तामेकाग्रहृदय स्थितः जिबोधनाक्षाय हरे धरिमे चतुतालयाम् दुबोधनाक्षाय हरे धरिमे चतुतालयाम् विश्वेश्वरीम् जगद्भात्रीम् स्थितिसंहारकारिणी विश्वेश्वरीम् जगद्भात्रीम् स्थितिसम्भारकारिणी निद्राम् भगवतीम् कृष्णोर्कुलाम् तेजसः प्रभुः निद्राम् भगवतीम् कृष्णोर्कुलाम् तेजसः प्रभोः स्वामि स्वाहा त्वम् स्वधा त्वम् हि वषत्कारत्वरात्मिका स्वामि स्वाहा त्वम् स्वधा त्वम् हि वषत्कारत्वरात्मिका सुधा नित्ये त्रिभामात्रात्मिकास्थिता सुधात्वमक्षरे नित्ये त्रिभामात्रात्मिकास्थिता अर्धमात्रास्थिता विशेषतः अर्थमात्रार्थिता नित्यायानुच्चार्या विशेषतः त्वमेव सङ्घ्या साविस्त्री त्वम् देवि जननीपरा त्वमेव सम्भ्या साविस्त्री त्वम् देवि जननीपरा त्वयैतद्धार्यते विश्वम् त्वयैतत्सिध्यते सर्वदा परेैव स्पाल्यते दे देवित्वमस्यन्ते च सर्वदा विसृष्टोश्रक्तिरूपा त्वम् इतिरूपा च पालने विसृष्टोश्रक्तिरूपा त्वम् इतिरूपा च पालने सभा संहृतिरूपान्ते जगतोऽस्य जगन्मये जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महाविद्या महामाया महामेधा महासृतिः महामोहाच भवती महादेवी महासुरी महामोहाच भवती महादेवी महासुरी प्रकटस्त्वम् दशरूपस्य गुणत्रयविभागिनी नकटस्त्वम् दशरूपस्य गुणत्रय विभागिनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दामुणा कालरात्रिर्महारात्रिर्मोहरा त्रिस्तदानुना त्वं श्रीत्वमेश्वरी स्वम्भि त्वम् बुद्धिर्बोधलक्षणा स्वं श्रीत्वमेश्वरी स्वम्भी त्वम् बुद्धिर्बोधलक्षणा लज्जा भुक्ति तथा पुष्वं शान्तिः क्षान्तिरेव च लज्जा भक्ति तथा पुष्वम् शान्तिः क्षान्तिरेव खड्गिने शोलिने भोरा दजिनी चक्रिणे तथा खड्गिने शोलिने भोरा दजिनी चक्रिणे तथा करण्ठिने चापिणेवाणभुषुण्डे परिघायुभा करण्ठिने चापिणेवाण भुषुण्डे परिघायुभा सौम्या सौम्यतरासे कतौन्येभ्यस्पति सुन्दरी सौम्या सौम्यतरासे कतौन्येभ्यस्पति सुन्दरी परापराणाम् परमा त्वमेव परमेश्वरी परापराणाम् परमा त्वमेव परमेश्वरी यस्य किञ्चित् क्वचिद्वस्तु सदसद्वाभिलाक्षिके यच्च किञ्चित् क्वचिद्वस्व सदसद्वाभिलाक्षिके तस्य सर्वस्य यासक्तिस्तात्वम् किम् भूयसे तदा तस्य सर्वस्य यासक्तिस्तात्वम् किम् श्रूयसे तदा ययात्मया जगत्त्रक्ता जगत् प्राप्यत्ययो जनत् ययात्मया जगत्त्रक्ता जगत् प्राप्यत्ययो जनते कोऽपि निद्रावसम् नीकः तत्त्वाम् क्रोतुमिहेश्वरः कोऽपि निद्रावसम् नीकः तत्त्वाम् क्रोतुमिहेश्वरः विश्वस्तरेण ग्रहणमहमीषान एव विश्वस्तरेण ग्रहणमहमीषान एव कारितास्ते यतो तत्त्वान् कर्कतुम् शक्यमान् भवेत् कारितास्तेयतो तत्त्वान् कर्कोतुम् शक्यमान् भवेत् सात्वनिष्ठम् प्रभावै स्वै उदानयेद्येविसंस्कृता सात्वनिष्ठम् प्रभावै स्वै उदानयेद्येविसंस्कृता मोहयेतौ दुराधर्चा वसुरौ मधुकैकभौ मोहयैकौ दुरादर्शारौ मधुकैकभौ प्ररोधं च जगत्स्वामीनि यतामस्युतो नभो प्ररोधं च जगत्स्वामीनि यतामस्युतो नभो गोधत्वक्रियतामस्यहं तुमेतौ महादुरौ गोधत्वक्रियतामस्यहं तुमेतौ महादुरौ ऋषिरुबा ऋषिरुवाच एवं स्तुता तदा देवी तामसी तत्रवे भसा एवं सुता तदा देवी तामसी तत्रवे भसा विश्वा प्रबोधना कायनिहन्तुम् मधुनैकवौ विष्ण प्रबोधना कार्यनिहन्तुम् मधुनैकवौ नेत्राक्यनाधिका बाहुहृदयेभ्यस्तभोरतः नेत्राख्यनाधिका बाहुहृदयेभ्यस्तभोरतः निर्गम्यदर्शने तस्थो ब्रह्मणोऽव्यप्रजन्मनः निर्गम्यदर्शने तस्थौ ब्रह्मणो व्यप्रजन्मनः उत्तस्फौ च जगन्नाथत्तया मुक्तो जनार्दनः उत्तस्फौ च जगन्नाथत्तया मुक्तो जनार्दनः एकार्नवेः शयनात्ततस्तदृशे ततौ एकार्नवेः शयनात्ततस्तदृशे मधु एकमौ दुरात्माना भतिवीर्यपराक्रमौ मधु एकमौ दुरात्माना भतिवीर्यपराक्रमौ क्रोधरक्ते क्षणावक्तुम् ब्रह्माणम् जनितोद्यमौ क्रोधरक्ते क्षणावक्तुम् ब्रह्माणम् जनितोद्यमौ समुत्थाय ततत्राभ्याम् वियुधे भगवान् हरिः समुत्थाय ततत्राभ्याम् वियुधे भगवान् हरिः पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः तावस्यति बलोन्मत्तौ महामायाविमोहितौ तावत्यदि बलोन्मत्तौ महामायाविमोहितौ उक्तवन्तौ वरो स्मत्वोभ्यियतामितिकेकवम् उक्तवन्तौ वरो स्मत्वोभ्रियतामितिकेकवम् श्रीभगवानुवाच श्रीभगवानुवाच भवे मे पुष्टौ मम मध्यानुभावपि भवेदामस्य मे पुष्टौ मम मध्यानुभावपि शिवन्येन बलेनात्र एतावध्यवृतम् मम शिवन्येन बलेनात्र एतावध्यवृतम् मम रिषिरुवाच रिषिरुवाच वञ्चिताभ्यामिति तदा पर्वमापोमयम् जगत् वञ्चिताभ्यामिति तदा पर्वमापोमयम् जगत् शिलोप्यताभ्याम् गनितो भगवान् कमलेक्षणः शिलोप्यताभ्याम् गनितो भगवान् कमलेक्षणः आवाम् जहिनयत्रोर्वि बलिलेन परिप्ता आवाम् जहिनयत्रोर्वि बलिलेन परिप्ता रिषिर्वाच ऋषिरुवाता तथेत्युक्त्वा भगवता सङ्घचक्रगताभृता तथेत्युक्त्वा भगवता सङ्घचक्रगताभृता कृत्वा चक्रेण वैच्छिन्ने दघने चिरसीतयोः कृत्वा चक्रेण समुत्पन्ना ब्रह्मणा संस्कृता एवमेधा समुत्पन्ना ब्रह्मणा संस्कृता स्वयम् प्रभावमस्यादेव्यासु भूयशृणु वदामि ते प्रभावमस्यादेव्यास्व भूयशृणु वदामि ते ऐ